पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा विचित्रवीर्यो राजर्षिः पाण्डुश्चकुरुनन्दनः स तस्मिन् पुरुषव्याघ्रे देवभावं गते सति राजपुत्रानिमान् वयमेतदनिच्छन्तः सर्व पुरोत्तमात् गृहान् गच्छामो यत्र गन्तायुधिष्ठिरः तांस्तथावादिनः पौरान् दुःखितान् दुःखकर्षितः उवाचमनसाध्यात्वा धर्मराजो युधिष्ठिरः पितामान्यो गुरुः यदाह पृथिवीपतिः अशङ्कमानैस्तत्कार्यमस्माभिरितिनोव्रतं भवन्तः सुहृदोऽस्माकमस्मान् कृत्वा प्रदक्षिणं प्रतिनन्द्य तथाशीर्भिः निवर्तध्वं यथा गृहम् यदा तु कार्यमस्माकं भवद्भिरुपत्स्यते तदा करिष्यथास्माकं प्रियाणि च हितानि च एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम् आशीर्भिश्चाभिनन्द्येताञ्जग्मुर्नगरमेव हि पौरेषु विनिवृत्तेषु विदुरः सत्यधर्मवित् बोधयन् प्राज्ञः प्राज्ञः प्रलापज्ञः प्रलापज्ञमिदम् वचः प्राज्ञम् प्राज्ञः प्रलापज्ञः प्रलापज्ञम् वचोऽब्रवीत्